भाग्यसुक्तम् श्रीगुरुभ्यो नमः हरि ॐ प्रातरग्निं प्रातरिन्द्रग्म् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् प्रातर पूषणं ब्रह्मणस्पतिं प्रातरस्सोममुतरुद्रगं भुवेम प्रातर्जितगं भगमुग्रगं हुवेम वयं पुत्र मदीतेर्जो विधर्ता आद्रश्चिद्रं मन्यमानस्तूरश्चिद्राजा छिद्यं भगं भक्षित्याह भ्रगप्रणेतर्भग सप्त राधो भगे मां धियमुदवदत्त भगप्रणो जनय गोभिरत्वैर्भग प्रणिभिन्वन्तस्याम उतेदानिं दानीं भगवन्तस्याभूतं प्रपित्व उत मध्ये आह्वा आम् उतोदितां मगवन् सूर्यस्या देवानागं सुमतौ स्वाम भग एव भगवागम् अस्तु देवास्तेन वयं भगवन्तस्यावां तं त्वा भग सर्व इज्जोहवीमि सनो भगपुरेता भगपुरयेता भवेह समध्वरायो सोनमन्त दधिग्रावेव सूचये पदाय अर्वाचीनं वसुविदं भगवन्नो रथमिवाश्वाजिन आवहन्तु अश्वावतिर्गोमतिर्न उषासो वीरवती सदमुच्छन्तु भद्राः घृतं दुहाना विश्वत् प्रपणायूयम् पात स्वस्तिभिस्तन्नः यो मा भागिनगं सन्तमथा भागं चिकीर्षिति अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ